श्रीमद्भागवत् महापुराणं पञ्चं स्कन्ध किं पुरुष और्भारतवर्षकावर्णन् शेषोकुवाच किं पुरुषे वर्षे भगवन्तम् आदिपुरुषं लक्षणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परं भागवतो हनुमानस किं पुरुषे अविरतभक्तिरूपासे आष्टिशेणेन सह गन्धर्वै अनुगीयमानां परं कल्याणीं भद्री भगवत्कथां स्वयं चेदं गायति ॐ नमो भगवते श्लोकाय नम आर्य लक्षणशीलव्रताय नमोपशिक्षितात्मन उपासीतलोकाय नमः साधुवादनिकर्षणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नमैते। इति यद्यद्विशुद्धानुभवाम् भवमात्रमेकं स तेजसाध्वसगुणव्यवस्थं प्रत्यक्प्रशान्तं सुधियोपलम्भनं निरहं प्रपद्ये मर्तावतारस्त्रियं मर्तशिक्षणं रक्षो विभोः कुतोऽन्यथा स्याद्रमतस्वात्मनः सीताकृतानि व्यसनानिश्वरस्य न वैस आत्मात्मवतां सुहित्तमः सप्तस्त्रिलोक्यां भगवान् वासुदेव न स्त्रीकृतं कस्मलमस्नुवीत न लक्ष्मणं चापि विहातुमर्हति न जन्म महतो न शौभगं न वाङ्नबुद्धिर्ना तैर्यद्विसृष्टानपि नो वनौकसचकार शङ्खेवतलक्ष्मणाग्रजः सुरोसुरो वाप्यथवा नरो नरसर्वात्मनाय सुखतज्ञमुत्तमं भजेत रामं मनुजाकृतिं हरिं य उत्तरान्ननयन् कोसलान् देवमिति भारतेऽपि वर्षे भगवान्नरनारायणाख्य धर्मज्ञान आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमो परमात्मोपलम्भन् मनुग्रहायात्मवतामनुकम्पया तपोव्यक्तगते सरति तं भगवान्नारदो वर्णाश्रुमवतीभिर्भ्राम्भारतीभिः प्रजाभिर्भगवन् प्रोक्ताभ्याम् साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्षमाणः परं भक्तिभावे नोपसरति इदं चाभिगृह्णाति ॐ नमो भगवते उपशमशीलाय उपरतानात्म्याय नमो किञ्चन वित्ताय ऋषिर्षभाय नरनारायणाय परमहंस परं गुरवे आत्मा ज्ञायति चेदं करुतास्य सर्गादिशयो न नहन्यते न हुन्यते देहगतोऽपि दैहिकैः द्रष्टुर्नदिज्ञस्य गुणैर्विदुष्यते तस्मै न भूसक्तविवेक्तसाक्षिणे इदं हि योगेश्वरियोगनैपुणं हिरण्यगर्भो भगवान् जगादि यत् यदन्तकाले त्वयि निर्गुणो मनोभक्त्यादधीतोज्झितदुष्कले वरः यतैहिकाम् कामस्मिङ्कं कामलम्पट सुते सुदारेषु धनेषु चिन्तयन् सङ्केतविद्वान् कुकलेवरात्याञ्जस्तस्य यत्नश्रम एव केवलं तन्न प्रबोतं कुलकलेवरार्पितां त्वन्माययाहं मम तामधोक्षज विद्यामञ्जेन शुभयं सुं सुदुर्भिधां विदेहि योगं त्वेन स्वभावमिति भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलियो मङ्गलप्रस्थो मैनाकत्रिकूटऋषभकूटककूल्लकः सह्यो देवगिरिष्यमुखः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यशुक्तिमालिक्षरगिरिः पारियात्रो द्रोणञ्चिद्रकूटो गोवर्धनोरैवतकः कुकुभोडीलो गोकामुख इन्द्रकील कामगिरिति चान्ये च शतसहस्रश शैलास्तेषां नितम्ब प्रभुवा नदा नद्यश्च सन्त्वयसगृह्या एतासमाम्भोम् एतासामपो भारत्यः प्रजानामभिरेव पुरन्ती नामात्मना चोपस्पृशन्ति चन्द्रवशा ताम्रपण्डी अवोटोदाम् अवटोदाकृतमाला वहायसी कावेरी वेडी वेणी पश्विपश्विनी तर्करावरता कृष्णा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापीरेवासुरसा नर्मदा चर्म चर्मती सिन्धुरन्ध्रः षोडश्च नदौ महानदी वेदस्मृति ऋषिकुल्या सशामा कौसकी मन्दाकिनी यमुना सरस्वती दिशद्वती गोमती सर्योरोधस्वती शब्दवती सुशोभां संसरद्रुश्चन्द्रभागामरुद्विधा वितस्ता अक्षिरे विश्वयति महानद्यः अस्मिन्नेव वर्षे पुरुषे लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन सारब्धेन कर्मणा दिव्यमानसन्नारकं नारकगतयो ब्रह्मय आत्मना आनुपूर्वेण सर्वासेवं सर्वेषां विधीयन्ते यथा वर्णाभिधानमपवर्गश्चापि भवति योऽसौ भगवति सर्वभूतात्मन्यनात्मे निरुग्धे निलयने परमात्मनिवासुदेवे नन्यनिविद्यभक्तियोगलक्षणो नानागतिर्निद्या विद्याग्रन्थिरन्धनद्वारेण जलहि महापुरुषपुरुषप्रसङ्गी देवा गायन्ती